नारदपुराणं पूर्वार्थम् अध्यायं सेवेण्टी नैन् सनत्कुमार उवाच अथा परं वायुसूनोश्चरितं पापनाशनं यदोक्तं स्वासुरामेण आनन्दवनवासिना सद्यो जादे महाकल्पे श्रुतवीर्ये हनूमति मम श्रीरामचन्द्रस्य भक्तिरस्तु सदैव हि शृणुष्वगतदो मत्थः कुमारस्य कुमारकचरितं सर्वपापघ्नं शृण्वतां पठतां सदा वाञ्छाम्यहं सदा विप्रसंगमं कीशरूपिणा रहस्यं रहसि स्वस्य ममानन्दवनोत्तमे परितेत्र सखायो मे सख्यश्च विगतज्वराः क्रीडन्ति सर्वदा चात्र प्राकट्येऽपि रहस्यपि कस्मिंश्चितवतारेतु यद्वृत्तं च mm. रहो मम तादात् प्रकटं तुभ्यं करोमि प्रीदमानसः आविर्भूतोऽस्म्यहं पूर्वं राज्ञो दशरथक्षये चतुर्यूहात्मकस्तकत्र कस्य भार्यात्रये मुने तदकधिपयैरब्धैरागतो विश्वामित्रोऽर्थयामास पितरं मम भूपतिं यक्षरक्षो विघातार्थं लक्ष्मणेन सहैव मां प्रेषयामास धर्मात्मा सिद्धाश्रम मा रम्यकं तत्र गत्वा श्रम निशाचरौ ध्वस्तौ सुबाकुमारीजौ प्रसन्नो भूत्तदा मुनिः अस्त्रग्रामं ददौ मह्यं मासं चावासयत्तदा ततो गाधिसुतो धीमान् ज्ञात्वा भाव्यर्थमादराद मिथिलामनयत्तत्र रौद्रं चादर्शयध्वनुः तस्य कन्यां भूदां सीतां सुर सुदोपमां धनुर्विभज्य समिधि लब्धवान् मानिनोऽस्य च तदो मार्गे भृगुपदेर्दर्पमूढं चिरं स्मयन् व्यशनीयागमं पश्चादयोध्यां स्वपितुः पुरीं तदो राज्ञाहमाज्ञाय प्रजाशीलनमानसः यौवराज्ये स्वयं प्रीत्या सम्मन्त्र्यात् पैर्विकल्पितः पश्रुत्वा सुप्रिया भार्या कैकयी भूपतिं मुने देवकार्यविधानार्थं विदूषितमधिर्जगौ पुत्रो मे भरतो नाम यौवराज्येऽभिषिच्यतां रामश्चतुर्दश समदण्डकान् प्रविभास्यतां तदा कर्ण्या अमुद्योक्तोरण्यं भार्यानुजान्वितः गन्तुं नृपदिनानुक्तोऽप्यगमं चित्रकूटकं तत्र नित्यं वन्यभलैर्मांसैश्चावर्तितक्रियः निवसन्ेव राज्ञस्तु निधनं चाप्यवागमं ततो भरतशत्रुघ्नौ भ्रातरौ मम मानदौ मान्दृवर्गयुतौ दीनौ साचार्यामात्यनागरौ व्यजिज्ञपदमागत्य पञ्चवट्यां निजाश्रमम् अतल्पयं भ्रातृभार्यासहितश्च त्रिवत्सरं ततत्रयोदशे वर्षे रावणो नाम मायया कृतवान् सीतां प्रियां तदोहं दीनवदनऋष्यमोकं हि पर्वदं भार्यामन्वेषयन् प्राप्तसख्यं हर्यधिपेन च अध वालिनमाहत्य सुग्रीवस्तत्पदे कृतः सः वानरयूथैश्च साहाय्यं कृतवान् मम विरुध्य रावणेनालं मम भक्तो विभीषणः आगतो ह्यभिषिच्याशु लङ्केशो हि विकल्पितः हत्वा दुरावणं संख्ये सपुत्रमात्य बान्धवम् सीतामादाय संशुद्ध्वामयोध्यां समुपागतः तातःकालान्तरे विप्रसुग्रीवश्च विभीषणः निमन्त्रिदौ पिदुश्राध्वे षडे कुलश्च द्विजोत्तमाः अयोध्यायां समाजक्मुत्तेदु सर्वे निमन्त्रिताः हृदि विभीषणं तत्र चिन्तयानि यकोत्तमे शम्भुर्ब्राह्मणरूपेण षड्कुलैश्च सहागतः अध पृष्टो मया नीत्वा मां द्रिविडे देशे मोच यद्विजबन्धनाद मया निमन्त्रिता श्रद्धे ह्यागस्त्याद्यामुनीश्वराः सम्भोजितास्तु प्रययुष्व स्वमाश्रममण्डलं तदकालान्तरे विप्रा देवा दैत्या नरेश्वराः गौतमेन समाहूता सर्वे यज्ञ सभाजिताः ते सर्वे स्फाटिकं लिङ्गं भियाम्बकाद्रौ निवेशितं सम्पूज्यन्यवसत्तत्र देवदैत्यनृपाग्रजाः तस्मिन् समाजे विदधे सर्वाौर्लिङ्गे समर्चिते गौतमोऽप्यथ मध्याग्ने पूजयामास शङ्करम् सर्वे शुक्लाम्बरधरा भस्मोद्धूलितविग्रहाका सुतेन भस्मना कृत्वा सर्वस्थाने त्रिपुण्ड्रकं नत्वा दुभार्गवं सर्वे भूतशुद्धिं प्रचक्रमुः हृत्पद्ममध्ये सुषिरं तत्रैव भूतपञ्चकं तेषां मध्ये महाकाशमाकाशे निर्मलामलं तन्मध्ये च महेशानं ध्यायेदीप्तिमयं शुभम् अज्ञानसंयुदम्भूतं समलं कर्म सङ्गदः तं देहमाकाशदीपे प्रदहे ज्ञानवह्निना आकाशस्यावृत्तिं चाकं दग्ध्वाकाशमधो दहेद दग्ध्वाकाशमधो वायुमग्निभूतं तधा दहेद अभूतं च ततो दग्ध्वा, दग। दग्ध्वा पृथिवीभूतमेव सदा श्रितान् दग्ध्वा ततो देहं प्रदाहयेद एवं प्रदग्ध्वा भूतार्दिदेहि तज्ज्ञानवह्निना शिखामध्यस्थितं विष्णुमानन्दरसनिर्भरं निष्पन्नचन्द्रकिरणसङ्काशकिरणं किरणं शिवं शिवाङ्गोत्पन्नकिरणैरमृत द्रव्यसंयुतैः सुशीतला तदोज्ज्वाला प्रशान्ता चन्द्ररश्मिवद प्रसारिदशुद्धारुभिः सान्द्रीभूतश्च संप्लवः अनेन प्लाविदं भूतग्रामं सञ्चिदयेत्परं युद्धं कृत्वा भूतशुद्धिं प्रियार्हों मत्स्यशुद्धो जायते ह्येव सद्यः पूजां कर्तुं जप्य कर्मापि पश्चादेवं ध्यायेत् ब्रह्म हत्यादिशुद्ध्यै एवं ध्यात्वा चन्द्रदीप्तिप्रकाशं ध्यानेनारोप्याशुलिङ्गे शिवस्य सदाशिवं दीपमध्ये विचिन्त्य पञ्चाक्षरेणार्चनमव्ययम् तु अवाहनादीनुपचाराम्रतथापि कृत्वा स्नानं पूर्ववच्छङ्करस्य औदुम्परं राजतं स्वर्णपीठं वस्त्रादिच्छन्नं सर्वमेवेहपीठम् अंदे कृत्वा बुद्भूताभ्यां च सृष्टिं पीठे पीठे नागमेकं पुरस्ताद कुर्यात्पीठे चोर्ध्वके नागयुग्मं देवाभ्यासे दक्षिणे वामतश्च जपापुष्पं नागमध्ये निधाय मध्ये वस्त्रं द्वादशप्राधिगुण्ये सुश्वेतेन तस्य मध्ये महेशं लिङ्गापारम् पीठयुक्तम् प्रपूज्यम् एवं कृत्वा साधकास्ते तु सर्वे दत्वा दत्त्वा पञ्च गन्धाष गन्धं पुष्पैपत्रैः श्रीतिलै तिलोन्मिश्रैः केवलैश्च प्रपूज्य धूपं दत्त्वा विधिवत्सम्प्रयुक्तं दीपं दत्वा चोक्तम् एवोपहारकं पूजाशेषं ते समाप्याधः सर्वे गीतं नृत्यं तत्र तत्रापि चक्रुः काले चास्मिन् सुव्रदे गौतमस्य शिष्यप्राप्तश्चङ्करात्मेदि नाम्ना उन्मत्तवेषो दिग्वासा अनेकां वृत्तिमास्थितः क्वजे त्विजादिप्रवर क्वजे चण्डलसन्निभः क्वचिच्छूद्रसमयोगितापस क्वचिदप्युद गर्जत्युत्पददे चैव नृत्यधिस्तौदि गा यदि रोदधि शृणुदेत्युक्तं पदत्युक्तिष्ठधि क्वचिद् शिवज्ञानैकसम्पन्नपरमानन्दनिर्भरः सम्प्राप्तो भोज्यवेलायां गौदमस्यान्तिकं ययौ बुभुजे गुरुणा साकं क्वचिदुच्छिष्टमेव च क्वचिल्लिखति तत्पात्रं तूष्णीमेवाभ्यगात् क्वचिद् अस्तं गृहीत्वैव गुरो स्वयमेव भुनः क्वचिद् क्वचिद् गृहान्तरे मूत्रं क्वचित् कर्दमलेपनं सर्वदादं गुरुदृष्ट्वा परमालम्ब्य मन्दिरम् प्रविश्य स्वयपीठे तमुपवेश्याप्यभोजयद स्वयं तदस्य पात्रेण बुभुजो भुभुजे गौदमो मुनिः तस्य चित्तं परिज्ञातुं कदाचिदधसुन्दरी अहल्या शिष्यमाहूय भुङ्क्ष्वेधिप्रागदं मुदा निर्दिष्टो गुरुपत्न्यादु बुभुजे सोऽविशेषतः यथा पपौ तथा वाग्निमपि द्विजा कण्टकानन्नवद्भुक्त्वा पुरोहि मुनिकन्याभिराहुदो भोजनाय च दिने दिने तत्प्रदत्तं लोष्टमम्बुजगोमयं कर्दमं काष्ठदण्डं च भुक्त्वा पीत्वा दहर्षितः एतादृशो मुनिरसौ चण्डालसदृशा कृतिः सुजीर्णोपानहौ हस्ते गृहीत्वा प्रलपन् हसन् अन्ध्यचोचित वेषश्च वृषपर्वाणमभ्यगाद वृषपर्वेशयो मध्ये दिग्वासा समतिष्ठत वृषपर्व तमज्ञात्वा पीडयित्वा शिरोच्चिनद हदे तस्मिन् द्विजश्रेष्ठे जगदे तञ्चराचरम् अतीव कलुषं यासीत् मुनयस्तथा गौतमस्य महाशोकसंजादस्सुमहात्मनः निर्ययौ चक्षुषोवादिशोकं सन्दर्शयन्निव गौतमः सर्वदैत्ययानां सन्निधौ वाक्यमुक्तवान् किमनेन कृते पापं येन छिह्नमिदं शिरः मम प्राणाधिकस्येत सर्वदा शिवयोगिनः ममाभिमरणं सत्यम् शिक्ष्य चत्मा यदो गुरुः शैवानां धर्मयुक्तानां सर्वदा शिववर्तीनां मरणं यत्र दृष्टं स्यात्तत्र नो मरणं ध्रुवं तच्छ्रुत्वा ह्यसुराचार्य शुक्रप्राहविदाम्बरः जनं सञ्जीवयिष्यामि भार्गवं शङ्करप्रियं किमर्थं म्रियदे ब्रह्मन् पश्य मे इति वादिनि विप्रेन्द्रे गौतमोऽपि ममारः तस्मिन्मृतेध शुक्रोऽपि प्राणांस्तत्या जयो गतः तस्यैवं हदिमा ज्ञाय प्रह्लादाद्यादिदीश्वराः देवानृपा द्विजा सर्वे मृता आसंस्तदद्भुतं मृदमासीदध बलं तस्य बाणस्य धीमदः अहल्याशोकसन्तप्ता रुरोदो चाय् पुनः पुनः गौत मेन महेशस्य पूजया पूजितो विभुः वीरभद्रो महायोगी सर्वं दृष्ट्वा अहो कष्टमहो महेशा बहवो हताः शिवं विज्ञापयिष्यामि तेनोक्तं करवाण्यथा इति निश्चित्य गवान् नमस्कृत्वा विरूपाक्षम् वृत्तः सर्वमथोक्तवान् ब्रह्माण्डं च तत्र स्थितौ प्राह शिवो वचह। मद्भक्कृतैः साहसं कर्म कृतं ज्ञात्वा वरप्रदं गत्वा पश्यामि हे विष्णो सर्वं तत्कृतसाहसम् इत्युक्त्वा वृषमारुह्य वायुना धूतचामरः नन्दिकेन धृदे चत्रेधिशोभने सुे देहे मदण्डे च नान्ययोग्ये धृदेव भो महेशानुमतिं लब्ध्वा हरिर्नागान्तके स्थितः आरक्तनीलच्छत्राभ्यां शुशुभे लक्ष्मकौस्तुभः शिवानुमत्या ब्रह्माभि हंसारूढो भवत्तदा इन्द्रगोपप्रभाकारच्छत्राभ्यां शुशुभे विधीः इन्द्रादि सर्वदेवाश्च स्ववाहनसंयुताः अथ दे निर्ययु सर्वे नाना नानावाद्यानुमोदिताः कोटिकोणि कोटिकोटिगणाकीर्णा -ना गौतमस्याश्रमं गताः ब्रह्मविष्णुमहेश्याना दृष्ट्वा तत् परमाद्भुतम् स्वभक्तं जीवयामास वाम कोणनिरीक्षणाद् शङ्करो गौतमं प्राह तुष्टोऽहं ते वरं वृणो तदा कर्ण्य वचस्तस्य कर्ण्यवचस्तस्य गौतमप्राह सादरम् यदि प्रसन्नो देवेश यदि देयो देयोवरो मम त्वल्लिङ्गार्चनसामर्थ्यं नित्यमस्तु ममेश्वर भृत मेदन्मया देव त्रिनेत्रशृणुचा परं शिष्यो य महाभागो हेया देयादिवर्जितः प्रेक्षणीयम् ममत्वेन न च पश्यति चक्षुषा न ग्राणग्राह्यं देवेश नापातव्यं न ना इति बुद्ध्या तथा कुर्वन् स हि योगी महायशः उन्मत्तविकृताकारशङ्करात्म्यधिकीर्तितः न कश्चित् तं प्रदिद्वेषी न च तं हिंसयेदपि एतन्मे दीयतां देवमृता नाम मृदिस्तथा तच्छ्रुत्वो निरीक्ष्य हरिमव्ययः स्वांशेन वायुनादेह मा भीष्यज्जगदीश्वरः हरिरूपशङ्करात्मा मारुक्कपि सत्तमः पर्यायैरुच्य देधीशत् साक्षाद्विष्णुशिवपरः आकल्पतेषु प्रत्येकं कामरूपमुपाश्रिदः ममाज्ञा कारको रामभक्तपूजितविग्रहः अनन्तकल्पमीशानस्थास्यदि प्रीतमानसः त्वया कृतमिदं वेश्म विस्तृतम् सुप्रतिष्ठितं नित्यं वै सर्वरूपेण तिष्ठामः क्षणमादराद समर्चितात् प्रयस्यामस्वस्ववासं ततः परम् अधा बभाषे विश्वेशं गौतमो मुनिपुङ्गवः अयोग्यं प्रार्थयामि शह्यर्ति दोषं न पश्यति ब्रह्माद्यलभ्यं देवेश दीयतां यदि अध्येशो विष्णुमालोक्य गृहीत्वा तत्करं करे प्रहसन्नम्बुजा भाक्षमित्युवाच सदा शिवः क्षामो दरोऽसि गोविन्दधेयं ते दे भोजनं किमु स्वयं प्रविश्य यदि वा स्वयं भुङ्क्ष्वत् स्वगेहवद गच्छ वा पार्वतीगेहं या कुक्षिं तत्करालम्बी ेकान्तमगमद्विभुः आदिश्य नन्दिनं देवोद्वाराध्यक्षं यद्धोक्तवद स गत्वा गौतमं विष्णुभाषणं सम्पादयान्नं देवेश भोक्तुकामा वयं मुने इत्युक्वैकान्तमगमद्वासुदेवेन शङ्करः मृदुशय्यां समारुह्य शयितौ देवतोत्तमौ अन्योन्यं भाषणं कृत्वा प्रोत्तस्ततु तडागं गम्भीरं स्रास्यन्तौ देवसत्तमौ कराम्बुपादमन्योन्यम् पृथ कृत्वो भयत्र च मुनयो राक्षसाश्चैव जलक्रीडां प्रजक्रिरे अध विष्णुर्महेशश्च जलपानानि शिख्रतः चक्रदुशङ्करृपद्म्यपद्मज किञ्जल्काञ्जलिना हरेः अवाकिरन्मुखे तस्य पद्मोद्भुल्लविलोचने नेत्रे केशरसम्पादात् प्रमीलयत केशवः अत्रान्तरे हरे स्कन्दमारुरोहमहेश्वरः हर्युत्तमाङ्गं बाहुभ्यां गृहीत्वा संयमज्जयद उन्मज्जयित्वा च पुनः पुनश्चापि पुनः पुनः पीडितस हरित्सूक्ष्मं पातयामा स शङ्करम् अथ पादौ गृहीत्वादं भ्रामयन्विचकर्षः अथादयध्वरेर्वक्ष पातयामा स अधोद्धितो हरितोय मादायाञ्जलिना तदः शीर्षैव किरत् शम्भुमधशम्भुरधोहरिः जलक्रीडैवमभवदध चर्षिगणान्तरे जलक्रीडासम्भ्रमेण विस्रस्तजडबन्धनाः अधः सम्भ्रमतां तेषामन्योन्यजडबन्धनाम् इतरेतरबद्ध्वासु जडासु जमुनीश्वराः शक्तिमन्दो शक्तिमद आकर्षन्ति च सव्यधं पादयन्तोऽन्यतश्चापित्रो शंतो रुदतस्तथा एवं प्रवृत्ते तु मूले सम्भुदेतो यकर्मणि आकाशे वानरेशस्तु नरेशस्तु ननर्त च ननाद च वि वादयन्वाद्यं ललिदां गीदिमु जगव सुगीत्या ललितायास्तु आगायदविधादश शुश्रावगीतिं मधुरां शङ्करो लोकभावतः स्वयं गातुं किललितं मन्दं मन्दं व्रजक्रमे स्वयं गायति देवेशे विश्रामं गददेशिकं स्वरं ध्रुवं समाधाय सर्वलक्षणसंयुतं स्वधारामृतसंयुक्तं गाने नैव मपोनयन् वासुदेवो मर्दलं च कराभ्यामप्यवादयद अम्बुजाङ्गश्चदुर्वक्रस्तुम्बुरुर्मुखरो तानका तानकागौतमाद्यास्तु गायको वायुजो भवद गायके मधुरं गीतं हनूमदिकपीश्वरे म्लानमल्मानमभवत् कृशापुष्टास्तदाभवन् स्वां स्वां गीतिमद सर्वे तिरस्कृत्यैव मूर्छिता तूष्णीभूतं समभवे देवर्षि एकस्य हनुमान् कादा श्रोतार सर्वयेवदे मध्याह्नकाले विदधे गायमाने हनूमदी स्वस्ववाहनमारुह्य निर्गता सर्वदेवताः कानप्रियो महेशस्तु जग्राहप्लवगेश्वरम् प्लवगत्वमया ज्ञाप्तो निःसङ्गो वृषमारुह मम चाभिमुखो भूत्वा गायस्वानेकगायनम् अधः कपिशार्दूलो भगवन्तम् महेश्वरं वृषभारोहसामर्थ्यं तव नान्यस्य विद्यतेश तव वाहनमारुह्य पादकी विभो मा ङ्गशिवधारणः तव चाभिमुखगानम् करिष्यामि विलोकय अधेश्वरो हनुमन्दमारुरोक यथावृषम् आरूढे शङ्करे देवहनुमत्कन्धरां शिवः चित्वा त्वजम् परावृत्य सुखम् कायदि पूर्ववद शम्भुर्गौतमस्य गृहं ततः सर्वे चाप्यागतास्तत्र देवर्षिगणदानवाः पूजिता गौतमेनाथ भोजनावसरे सदि यच्छुष्कं दारुसम्भूतं गृहोपकरणादिकं प्ररूढमभवत् सर्वं गायमाने कनूमदि तस्मिन् गाने समस्तानां चित्रं दृष्टिरधिष्ठत द्विबाहुरीशस्य पदा भिवं धनसमस्तत्रा भरणोपपन्नः प्रसन्नमूर्तितरुणसुमध्ये विन्यस्तमूर्ध्वाञ्जलिभिषो शिरोभिः शिरकराभ्यां परिगृह्य शङ्करो हनू मधपूर्वमुखं चकार पद्मा सनाशिनहनूमन्तों जलौ निधाय पादं त्वपरं मुखे च पादाङ्गुलिभ्यमथनासिकां विभुस्नेहेन जग्राह च मन्दमन्दं मंदा स्कन्दे मुखे त्वं सतले च कण्डे वक्षस्थले च स्तन मध्यमे हृदि ततश्च कुक्षावधनाभिमण्डलं पादं द्वितीयं विदधादिचाञ्जलौ शिरो गृहीत्वा वनमय्य शङ्करपस्पर्श पृष्टं चिबुकेन सोध्वनिं हारं च मुक्ता शिवो हनुमदकण्ठगदं चकार अध विष्णुर्म केशानमिकवचनमुक्तवान् हनुमदा समो नास्ति कृष्णब्रह्माण्डमण्डले श्रुतिदेवाद्यगम्यं हि पदं तव कपिष्ठितम् सर्वोपनिषदव्यक्तं त्वत्पदं कपि सर्वयुगमाधिसाधनैर्योगैर्नक्षणं ते पदं स्थिरं महायोगी कृतं भोजे परं स्वस्थं हनूमदि वर्षकोटिसहस्रं दुःसहस्राब्धैराधान्वहं भक्त्या सम्पूजितोऽपिषपादो नो दर्शितत्वया लोके पादो हि सुमाकाञ्चम्भुर्नारायणप्रियः हरिप्रियस्तदा शम्भुर्न तादृभाग्यमस्ति मे तच्छ्रुत्वा वचनं शम्भुर्विष्णुप्राहमुदान्विदः न त्वया सदृशो मह्यं प्रियोऽन्योऽस्ति हरे क्वचिद पार्वती वा त्वया तुल्या वर्तते नैव भिद्यते अधदेवायमहदे गौतमप्रणिपत्य च व्यजिज्ञपदमेयात्मेवैर् हि करुणानिधे मध्यास्नोऽयं व्यधिक्रान्तो भुक्तिवेलाखिलस्य च अथाचम्यमहादेवो विष्णुना सहितो विभुः प्रविश्य गौतमगृहं भोजनायोपचक्रमे रत्नाङ्गुलीयैरथनुपुरव्यं दुकुलबन्धेन तडित्सुकां च हारैरणे कैरदकण्डनिष्कयज्ञोपविधोत्तरवाससी च विलम्बि चन्मणिकुण्डलेन सुपुष्पधम्मिल्लवरेण चैव पञ्चाङ्गगन्धस्य विलेपनेन बाष्वङ्गदैकङ्कणकाङ्गुलीयैः अधो विभूषितशिवो निविष्ट उत्तमासने स्वसम्मुखं हरिं तथा न्यवेशयद्वरासने देवश्रेष्ठौ हरीशौ तावन्योन्याभिमुखस्थितौ सुवर्णभाजनस्तान्नं ददौ भक्त्या स गौतमः त्रिंशत्प्रभेदान् भक्ष्यान्स्तु पायसं च चतुर्विधं सुपक्वं पाकजातं च कल्पितं अपकं मिश्रकं तद्वत्त्रिंशतं परिकल्पितं शतं शतं सुकन्दानां शाकानां च प्रकल्पितं पञ्चविंशतिधा सर्पिसंस्कृतं व्यञ्जनं तथा शर्कराद्यं तथा चोद मोजाखर्जुरदाडिमं द्राक्षेक्षु नागरङ्गं च पक्वं फलोत्करं प्रियालक्रञ्जम्बूफलम् जम्भूफलं वीकं कन्दफलं तथा एवमादीनि जान्यानि द्रव्याणि शे समर्प्यज दत्वा पोषानकं विप्रो भुञ्जध्वमिति चा ब्रवीद सर्वेषु व्यजनं सूक्ष्म विस्तृतं गौदम स्वयमादाय शिवविष्णो परिहासमधो कर्तुमि परमेश्वरः पश्य विष्णो हनुमन्दं कथं भुङ्े स वानरं पश्यदि हरौ मण्डकं विष्णुभाजने चक्षेप मुनि सङ्क्षेषु पश्यत्स्वपि महेश्वरः हनुमदे पायसादिकं तदुच्छिष्टभोज्यं तवैव भजनाद्विभो अनर्थं मम नैवेद्यं पत्रं पुष्पं फलादिकं मह्यं निवेद्य सकलं कूप एव विनिः अभुक्ते त्वद्वं चो नूनं भुङ्क्ते चापि कृपा तव बाणलिङ्गे स्वयं भूते चन्द्रकान्दे हृदि स्थिते चान्द्रायणसमं स्नेयं शम्भोर्नैवेद्यभक्षणं भुक्तिवे लेयमधुना तद्वैरस्यं कदान्तराद भुक्त्वा तु कथयिष्यामि निर्विशङ्गं विभुङ्क्ष तद अध सौचलसंस्कारं कृतवान् गौतमो मुनिः आरक्त सुस्निग्ध सुसूक्ष्मगात्राननेकधातौद सुशोभिताङ्गान् तडाकदोयै कद बीजघर्षिदैर्विशौधितैष्ठै करकानपूरयत न जासैकदवेदिकां नवतरां संसाद्य सूक्ष्माम्बरैः शुत्वै श्वेदतरैरथोपरि कडां स्तोयेन पूर्णान् क्षिपेद लिप्त्वा नालकजादिमास्तपुटकं तत्कौलकं कारिकाचूर्णम् चन्दनचन्द्ररश्मिविशद मालां पुडान्तं क्षिपेद यामस्यापि पुनश्च वारिवत्सनेनाशोद्य कुम्भेन तञ्चं प्रथमधो निधाय बकुलं क्षिप्त्वा तथा पाडलं शफालीस्तपगमधो जलं च तत्र विन्यस्य प्रथमदयेव तोयशुद्धिं कृत्वाधो मृदुतरं सूक्ष्मवस्त्र खण्डेना वेष्टेश्रुणिकमुखं च सूक्ष्मचन्द्रम् अनादपप्रदेशेदुनिधाय का करकानथ मन्दवादसमभेदे सूक्ष्मव्यजनबीजते सिं चेच्छीदैर्जलैश्चाभिषिदैर्षणिकामपि संस्कृतास्व यतस्तत्र नरा न यो धवा नृपाः तत्कन्या वा क्षालिताङ्का धौधपादासुवाससः मधुर्पिगमनिर्यास चा। वजा मस्तके चापकम्यस्य पञ्चगन्धविलेपनम् पुष्पनध्वसु केशास्तु कासु भास्यु सुनिर्मलाः एवमेवार्चिता नार्य आप्तकुङ्कुमविग्रहाः युवत्यस्तरु सर्वाङ्गोनितराम्भूषणैरपि ये दाद्रिध्वनिदाभिर्वा नरैर्वादापयेजलं तेऽभिप्रधानसमये सूक्ष्मवस्त्राल्पवेष्टनं अधवामकरण्यस्य नरकं प्रेक्ष्य तत्र हि दोरिकान्यस्तन्मुच्य ततस्तोयं प्रदापयेत् एवं स कारयामास गौतमो भगवान् मुनिः महेशादिषु सर्वेषु भुक्तवत्सु महात्मसु प्रक्षालिताङ्गृहस्थेषु गन्धोद्वर्तितपाणिषु उञ्जा समीसीने देवदेवे महेश्वरे अदनी च समासीना देवाः सर्षिगणास्तधा मणिपात्रेषु संवेष्ट पूगखण्डान् सुधूपितान् अकोणान् वर्तुलान् स्थूलान् सूक्ष्मान् पृश्यानपि श्वेतपत्राणि संशोध्य क्षिप्त्वा कर्पूरकण्टकम् चूर्णं च शङ्करायाध निवेदयति गौतमे वचने मुनौ कपे घृषणताम्बूलं प्रयच्छ मम कण्ठकान् उवाच वानरो नास्ति मम शुद्धिर्महेश्वर अनेकबलभोक्तृत्वाद्वानरस्तु कथं शुचिः तच्छ्रुत्वा दुविरूपाक्षाः प्राहवानरसत्तमम् मद्वाक्यादखिलं शुद्धेन् मध्वाख्यातमृदं विषं मध्वाक्यादखिल वेद मध्वाक्याद्देवतादयः मध्वाख्याध्व विज्ञानं मद्वाक्यान् मोक्ष उच्यते पुराणान्यागमश्चैव स्मृतयो मम वाक्यतः अधो गृहाण ताम्बूल मम देहि सुखण्टकान् हरिर्वाम करेणाधाताम्बूलं पूगखण्डकं तत्र पत्राणि सङ्गृह्य तस्मै खण्डान् समर्पयत् कर्पूरमग्रदो दत्तं गृहीत्वा भक्षयच्छिवः देवेदो कृद ताम्बूले पार्वतीं मन्दराचलाद जय विजययोर्घस्तं गृहीत्वा यान्मुनिर्गृहं देवपादौ तदो नत्वा विनम्रवदनाभवद उन्नमयमुखी तस्य इदमाह त्रिलोचनाः त्वदर्थं देवदेवे हि अपराधकृतो मया यत् विहाय भुक्तं हि तधान्यशृणु सुन्दरि यत्त्वां स्वमन्दिरे त्यक्त्वा महधेनो मया ऋतं क्षन्तुमर्हसि देवे चित्यक्तकोपा विलोकय न बभाष्येऽप्यवमुक्ता सा युं धत्या विनिर्यय निर्गच्छन्ती मुनिर्ज्ञात्वा दण्डवत् प्रणनामः अथोवाच शिवा तं च गौतमत्वं किमिच्छसि अथाख गौतमो देवीं पार्वतीं प्रेक्ष्य संस्मितं कृद कृत्यो भवेयं वै भुक्ता यां मद्गृहे गौदमं तदप्राक् पोक्ष्यामि त्वद्गृहे विप्र शङ्करानुमदेन वै अथ शिवं विंशे लब्धानुज्ञस्त्वरागतः भोजयामास गिरिजां देवीं चारुम् ददीम् तथा भुक्त्वाथ पार्वती सर्वगन्धपुष्पाद्यलङ्कृता सख्यानुचरकन्याभिः सहस्राभिर्हरं ययौ अथाः शङ्करो देवी गच्छ गौतमममन्दिरम् सन्ध्योपास्तिमहं कृत्वा ह्यागमिष्येतवान् दिगम् इत्युक्त्वा प्रययौ देवी गौतमस्यैव मन्दिरं सन्ध्यावदनकामास्तु सर्व एव विनिर्गताः कृदसन्ध्यास्तडागेदु महेशाध्याश्च कृष्णशः अधोत्तरमुख शम्भुर्ण्या च कृत्वा अथ विष्णुर्महातेजा माकेशमिदमब्रवीद सर्वैर्नमस्यदे यस्तु सर्वैरेव समर्च्यते भूयदं सर्वयज्ञेषु स सा भवान् किं जपिष्यति रचिताञ्जलय सर्वे त्वा मे वैकमुपासिदे स देवदेवे स कस्मै विरचिताञ्जलिः नमस्कारादिपुण्यानां फलदस्त्वं महेश्वर तव कफलदो वन्द्यको वा त्वत्तोऽधिको वद तच्छ्रुत्वा शङ्करप्राहदेवदेवं जनार्दनं ध्याये न किञ्चिद्गोविन्दनमस्येहन किञ्चन किन्तु मया दर्शनीयं हरे चैदन्यथा पापकारिणः तस्माल्लोकोपकारार्थमिदं सर्वं कृतं मया ओम् हरिराधा हरिरथ तं नक्त्वा समतिष्ठत अथ ते दे प्राप्ता देवर्षयस्तदा सर्वे पूजा मधोचक्रुर्देव देवाय देवा शूलिने देवो हनुमदा सार्ध्वं गायन्नास्ते मुनीश्वर पञ्चाक्षरीं महाविद्यां सर्वे येव तदा जपन् हनुमत्करमालम्ब्य देवाभ्यां सङ्गदोहरः एकशय्याः स मांसीनौ तावो भौ देवदम्पती गायन्मास्ते जहनुमां स्तुम्बुरुप्रमुखास्तथा नानाविधविलासांश्च चकारपरमेश्वरः आहूय इदं वाक्यमुवाचः रचयिष्यामि धम्मिल्लमेहि मत्पुरतः शुभे देव्याः न च युक्तं तद्भर्त्रा शुश्रूषणं स्त्रियः केशप्रसाधनकृतावनार्थान्तरमा केशप्रसाधने देवतत्वं सर्वं न चेप्सितम् अथ बन्धे कृते पश्चादंसप्रान्तप्रमार्जनं तदश्चरमसंलग्नकेशपुष्पादिमार्जनं यदस्मिन् वर्तमाने तु महात्मानो यदागमन् तदा किमुत्तरं वाच्यं तव देवादिवन्दित नायान्ति चेतध विभोभिधिर्नाश्यमुपैष्यति एवं हि भाषमाणां तां करेणे करेणाकृष्य शङ्करः स्वोर्वो संस्थापयित्वैव विस्रस्य कजबन्धनं विभज्य च कराभ्यां सप्रसारनकैरपि विष्णुदत्तां पारिजातस्रजम् कचगदामपि कृत्वा धम्मिल्ल मकरोद्दमालां करागदां मल्लिकास्रजमादाय बबन्धकचबन्धने कल्पप्रसूनमालां च ब्रह्म दत्तां महेश्वरः पार्वती वसने गूढगन्धाढ्ये च समादद अथां स संलग्नमार्जनं कृतवान् विभु श्लधन्नीवेरधो देव्या वस्त्रवेष्टा दधो चकारः न स भूषणमे शिवा शम्भुं स्मित्वा पर्वतनन्दिनी अहो त्वन्मन्दिरे शम्भो सर्ववस्तुसमृद्धिमद पूर्वमेव मया सर्वं ज्ञादप्रायमभूत् किल सर्वद्रविणसम्पत्तिर्भूषणैः गम्यते शिरोविभूषितं देवब्रह्मशीर्षस्य मालया नरकस्य तथा माला वक्षस्थलविभूषणं शेषश्च वा सुखिश्चैव सविषौ तव कङ्गणौ विश्वौम्बरं जडाकेशा भसिधाङ्गरागमम् महोक्षो वाहनं गोत्रं कुलं चाज्ञादमेव च ज्ञायेदे पितरौ नैव विरूपाक्षं तथा वभुः एवं वदन्तीं गिरीजां विष्णुप्राहादिकोपनः किमर्थं निन्दसे देवि देवदेवं जगत्पतिं दुष्प्राणानप्रिया भद्रे तव नूनमः संयमात् यत्रे शनिन्दनं भद्रे तत्र नो मरणव्रतम् इत्युक्त्वा ध नखाभ्यां हि हरिश्चेत्तुं शिरोगदः महेशस्तत्करं गृह्य प्राह मासाकसं कृः पार्वतीवचनं सर्वं प्रियं मम न चाप्रियम् मम प्रियं कृषिकेश्च कर्तुं यत्किञ्चिदिष्यते ओमित्युक्त्वा भगवां तूष्णीं भूतो भवध्वरिः हनुमानधदेवाय वचः अर्थयामि विनिष्कामं मम पूजा व्रतं तथा पूजार्थमप्यहं गच्छे मामनुज्ञातुमर्हसि तच्छ्रुत्वा शङ्करो देवस्मित्वा प्राहवपीश्वरम् कस्य पूजा क्व वा पूजा किं पुष्पं किं दलं वद को गुरु कश्च मन्द्रस्थे कीदृशं पूजन एवं वदति देवैषे हनुमानिदिसंयुतः व्यपमानः समस्ताङ्गस्तोदुमेवं प्रचक्रमे नमो देवाय महदेशङ्करायामिदात्मने योरिने योगधात्रे जयोगिनां गुरवे नमः योगगम्याय देवाय ज्ञानिनां पदये नमः वेदानां पदये तुभ्यं देवानां पदये नमः ध्यानाय ध्यानगम्याय ध्यातॄणां गुरवे नमः अष्टमूर्ते नमस्तुभ्यं पशूनां पदये नमः अम्बकाय त्रिनेत्राय सोमसूर्याग्निचक्षुषे सुभृङ्गराजधत्तुर द्रोणपुष्पप्रियस्य ते बृहदि पूगपुन्नाग शम्पकादिप्रियाय च नमस्तेस्तु नमस्ते तु भूय एव नमो नमः शिवो हरिमथप्राह माभैषीर्वदमेखिलम् तदस्त्यक्त्वा भयं प्राह हनुमान् वाग्यकोविदः शिवलिङ्गार्चनं कार्यं भस्मोद्धूलितदेहिना दिवा सम्पादितैस्तैहैः पुष्पाद्यायै अपि तादृशैः देवविज्ञापयिष्यामि शिवपूज्यविधिं शुभं सायंकाले तु सम्प्राप्ते अशिरस्नानमाचरेद वसनं शुष्कं धृत्वा चम्यस्त्रिरन्यधीः अध भस्म समादाय आग्नेयं स्नानमाचरेद प्रणवेण स मां मन्द्र्य अष्टवारमधाम्बिवा पञ्चाक्षरेण मन्द्रेण नाम्ना वा येन केनचिद सप्ताभिमन्त्रितम्भस्म दर्भपाणिसमाहरेत् ईशानसर्वविद्यानामुक्त्वा शिरसि पादयेत् तत्पुरुषाय विद्महे मुखे भस्म प्रसेचयेद् अघोरेभ्यो धघोरेभ्यो भस्म वक्षसि निक्षिपेद् वामदेवाय नमः इति गुह्यस्थाने विनिक्षिपेद् सद्यो जादं प्रपद्यामि निक्षिपे दधपादयोः उद्धूल येत् समस्ताङ्गं प्रणवेन विचक्षणाः त्रैवर्णिकानामुदितस्नानादिविधिरुत्तमः सूद्रादीनां प्रवक्ष्यामि यदुक्दं गुरुणा तथो शिवेदि पदमुच्चार्य भस्म सम्मन्त्रयेत्सुधीः सप्तवारमधादाय शिवायेदि शिरस्यथ शङ्कराय मुखे प्रोक्तं सर्वज्ञाय हृदि क्षिपेद तानवे नम इत्युक्त्वा मुखे चाभिस्वयं भुवे उच्चार्य पादयोः क्षिप्त्वा भस्म शुद्ध्वमतः नमसि सर्वांगो धूलनम् मृतं प्रक्षाल्य हस्ता वाचम्य दर्भपाणिस्समाहिदः दर्भाभावे सुवर्णं स्यात् तदभावे गवालुकाः तदभावेदु दुर्वास्युस्तदभावेदु राजदम् सन्ध्योपास्तिं जपं देव्या कृत्वा देवगृहं देव वेदीमधो वापि कल्पितं तण्डिलं तु वा मृण्मयं कल्पितं शुद्धं पद्मादिरचनायुतं चादुर्वर्णकरं गैश्च स्वेदेनैकेन वा पुनः विचित्राणि च पद्मानि स्वस्तिकादि तथैव च गदा तथा उत्पलादिगदाशङ्खत्रिशूलडमरूपंस्तथा शरोक्तपञ्चप्रासादं शिवलिङ्गमथैव च सर्वकर्मफलं वृक्षं कुलकं कोलकं तथा षट्कोणं च त्रिकोणं च नवकोणमथापि वा कोने द्वादश कान्दोला पादुकाव्यजनानि चामरक्षत्रयुगलं विष्णुब्रह्मादिकास्तथा चोर्नै विरचयेद्वेद्यां धीमान् देवालयेऽपि वा यत्रापि देवपूजा स्यात्तत्रैवं कल्पयेद्बुधः स्वहस्तरचितं मुख्यं क्रेतं चैवतु मध्यमम् याचितं तु कनिष्ठं स्याद्बलात्कारमधोधमम् अर्हेषु यत्त्वनर्हेषु बलात्कार तु निष्फलं रक्तशालिजपाशाणकलमाश्रितरक्तकैः तण्डुलैर्वीः मात्रोद्धैकणैश्चैव यदाक्रमं उत्तमैर्मध्यमैश्चैव कनिष्ठैरथमैस्तथा पद्माधिस्थापनैरेव तत्सम्यग्यागमाचरेद प्रागुत्तरमुखो वापि यदि वा प्राङ्मुखो भवेद आसनं च प्रवक्ष्यामि यथा दृष्टं यथा श्रुतं कौशं चार्मं चैलतल्पे दारवम् तालपत्रकम्, काम्बलं काञ्चनं चैव राजदं, ताम्रमेव च गोकरी पार्कजैर्वापि ह्यासनं परिकल्पयेत् वैयाघ्रौरवं चैव हारिणमार्गमेव च चर्मं चतुर्विधं ज्ञेयमधबन्धुकमेव च यथा सम्भवमेते शुह्यासनं परिकल्पयेत् कृतपद्मासनो वापि स्वस्तिकासन एव च दर्भभस्मसमासे न ध्यानं चान्दः समाचरेद श्रीकान्दे द्वादशाङ्गुल्ये सूक्ष्मतनुं शिवम् अन्दश्चरन्दं भूतेष्वगुहायां विश्वतोमुखं सर्वाभरणसंयुक्तमिमादिगुणान्वितं ध्यात्वादं धारये चित्तेत्तीप्त्या पूरयेत्तनुं तया दीप्त्या शरीरस्थं पापं नाशमुपागतम् स्वर्णपादैरसं पर्काद्रक्तं श्वेदं यथा भवेद् तद्वादशदलवृत्तमष्टपञ्चत्रिरेव वा परिकल्प्यासनं शुद्ध्वं तत्र लिङ्गं निधाय च गुहस्थितं महेशानं लिङ्गेशं चिन्तयेद्धा शोधिते कलशेतोऽयं शोधितं गन्धवासितं सुगन्धपुष्पं निक्षिप्य प्राणवेणाभिमन्त्रितं प्राणायामश्च प्रणवशुद्रेषु न विधीयते प्राणायामपदे ध्यानं शिवेत्योङ्गारमन्त्रितं गन्धपुष्पाक्षतादीनि पूजाद्रव्याणि यानि सा निस्थाप्य समीपे तु तद सङ्कल्पमाचरेत् शिवपूजां करिष्यामि शिवतुष्ट्यर्थमेव च इति सङ्कल्पयित्वा तु तद आवाहनाधिकं कृत्वा तद स्नानं तदस्नानं प्रकल्पयेद नमस्तेत्यादिमन्त्रेण शतरुद्रविधानदः अविच्छिन्ना दुयाधारा मुक्तिधारेधिकीर्तिता तया ह्य स्नापयेन्मांस जप चुद्रमुखांश्च च एकवारं त्रिवारं च पञ्चसप्तनवापि वा एकादश तथा वारमैथकादशधान्विधं मुक्तिस्नानमिदं ज्ञेयं मासं मोक्षप्रदायकम् शैवया विद्यया स्नानं केवलं प्रणवेन वा मृण्ययैर्नालिकेरस्य शकलैश्चोर्मिभिस्तथा कंस्येन मुक्ता शुक्रिया च पुष्पादिकेसरेण वा स्नापये देवदेवेशं यथा सम्भवमीरितैः शृङ्गस्य च विधिं वक्ष्ये स्नानयोग्यं यथा भवेद पूर्वमन्तस्तु संशोध्य बहिरन्तस्तु शोधयेद सुगृग्धं लघुकृत्वाध नाङ्गं चिन्त्या कथञ्चनं नीचैकदेशविन्यस्तद्वारद्रोण्या सुहृदया कृसानुयुक्तं स्नानं तु देवाय परिकल्पयेद् एवं गवयशृङ्गस्य जलपूर्तिरथोच्यते द्वारे निषिद्धलोहार्धसंधिद्वारा समन्विते योगवक्रं नागदण्डं नागाकारं प्रकल्पयेद् फलस्थाने तु चषकं दण्डेन समरन्ध्रकं तत्रैव पादये तोयं स्थितं पादये दधान्येन वामेनैव करेण वा मुक्तिधाराकृता तेन पवित्रपापनाशनं एवं संस्नाप्य देवेशं पञ्चगव्यैस्तथैव च पञ्चामृतैरदस्नाप्य मधुरधृतयेन विभूष्य भूषणैर्देवं पुनः स्नाप्य महेश्वरम् शीतोपचारं कृत्वाथ तद आचमनादिकं वस्त्रं तथोपवीतं च गन्धद्रव्यगमेव कर्पूरमगरुं चापि पाडीरमध वा भवेद उभयमिश्रितं चापि शिवलिङ्गं प्रपूजयेद कृष्णं पीठं गन्धपूर्णं यद्वा विभवशारदः तूष्णीमधोपचारं वा कालीयं पुष्पमेव च स्त्रीपन्नमरुचित्याज्यं यथा शक्त्यखिलं अनेकद्रव्यधूपं च गुग्गुलं केवलं तथा कपिलाकृतसंयुक्तं सर्वधूपं प्रशस्य दे धूपं दत्त्वा यथा शक्रि अथवा भुजमात्रेण दीपान् दत्वोपहारकं नैवेद्यमुपपन्नं च दत्त्वा पुष्पसमन्वितम् मुखशुद्धिं तदा कृत्वा दत्त्वा ताम्बूलमादराद प्रदक्षिणनमस्कारौ पूजैवं हि समाप्यते गीत्यङ्गपञ्चकं पश्चात्तानि विज्ञापयामि ते च नृत्यं हास्योक्तिरेव नीराजनं च पुष्पाणामञ्जलिश्चाखिलार्पणं क्षमापणम् चोद्रसनं प्रोक्तं पञ्चोपचारकं भूषणं च तदाच्छत्रं चामरव्यचने अपि उपवीत च कैकर्यं षोडशान्युपचारकान् द्वात्रिंशदुपचारैस्तु यः समाराधयेच्छिवं ये केनाह्ना समस्तानां पादकानां क्षयो भवेत् एतच्छ्रुत्वा प्राह प्राहशङ्करः एवमेतत् कपिश्रेष्ठ यदुक्तं पूजनं ममां सारभूतमहं तुभ्यमुपदेक्ष्यामि साम्प्रतम् आराधनं यथा लिङ्गे विस्तरेण त्वयोदितं मत्पादयुगलं प्राच्य पूजाफलमवाप्नुहि ततः प्राहकपिश्रेष्ठो देवदेवमुपापतिं गुरीणा लिङ्गभूजैवनि यदा परिकल्पिता तं करोमि पुरा देव पूजनम् युक्त्युक्तेश्च नमस्कृत्य शिवलिङ्गार्चनाय च सरसस्थिरमागत्य कृत्वा सैकदवेदिकाम् तालपात्राय विरचितमासनं पर्यकल्पयद प्रक्षाल्यपादौ हस्तौ च समाचम्य समाहितः भस्मस्नानमधोचक्रे पुनराचम्य वाग्यदः देववेद्यामधोचक्रे पद्मं च सुमनोहरम् अनन्तरं तालपत्रे पद्मासनगधकविः प्राणानायम्य सम्यक् शुल्कध्यान समन्वितः प्रणम्य गुरुमीशानं जपन्नासीदतः परम् अध देवार्यनं कर्तुं यत्नमास्थितवान् कविः पलाशपत्रपुटकद्वयानीतजलं शुचि शिरःकमण्डलुगदं निधायाग्निमन्त्रितम् आवाकनादिकृत्वाधस्नान पर्यन्तमेव च देव स्नापयितुं देवमादाय करसम्पुटे कृत्वा निरीक्षणं देवपीठं नो दृष्टवान् कविः लिङ्गमात्रं करकदं दृष्ट्वा भीति समन्वितः इदमाहमहायोगी किं वा पापं मया कृतं यदेतत्पीठरहितं शिवलिङ्गं करस्थितं ममाद्यमरणं सिद्धं न चागमिष्यति अधरुद्रं ज्यविष्यामि तदा यदि महेश्वरः इति निश्चित्य मनस्सा जापशदरुद्रियं यदा तु न समायातो महे शोधकवीश्वरः रुद्रं न्यपाद यद्भूमौ वीरभद्रः समागतः किमर्थं कारणं वद तत् श्रुत्वा प्राहहनुमान् वीरभद्रं पीडहीनमिदं लिङ्गं पश्य मे पापसञ्चयं वीरभद्रस्तदप्राक्श्रुत्वा कपि समीचितं यदि नायादिपीठं ते लिङ्गे मा साथ शम्भुरु दासयिष्याम्यकं लोकान्यदि नायादिपीठकं पश्य दर्शय मे लिङ्गं पीठं दृष् ्वा गदं लिङ्गे पीडमनागदम् दग्धो कामोऽभिल्लोकान् वीरभद्रः प्रातापवान् अनदम्भुवि शिक्षेपक्षणा दग्धा मही तदा तदसप्तलान् दग्ध्वा पुनरूर्ध्वमवर्तत पञ्चोर्ध्व लोकानदहज्जनलोकनिवासिनः ललाडनेत्रसम्भूतं नाके नादाय चानलं जम्बीरफलसङ्काशं कृत्वा करतले विभुः तपः सत्यं च संदग्धु मुद्यदो भून्मुनीश्वरः तदस्तु मुनयो दृष्ट्वा तपो लोकनिवासिनः दग्धु कामं वीरभद्रं गौतमाश्रममागताः न दृष्ट्वा तत्र देवेशं शङ्करं स्वात्मनि स्थितम् अस्तु वन् भक्तिसंयुक्तास्तोत्रैर्वेदसमुद्भवैः ॐ वेदवेद्याय देवाय तस्मै शुद्धप्रभाचिन्त्यरूपाय तस्मै ब्रह्माद्यधीशाय सृष्ट्यादिकर्त्रे विष्णुप्रियायार्तिहन्त्रेन्द्रकर्त्रे नमस्ते किला धिश्वरायाम्बराय नमस्ते चरस्तावरव्यापकाय नमो वेदगुह्याय भक्तप्रियाय नमः पाकभोक्त्रे मकेशाय तुभ्यं नमस्ते शिवायादिदेवाय कूर्मो नमो व्यालयज्ञोपवीदप्रधर्ने नमस्ते सुराबिन्दु सुराबिन्दुवर्षापनाय त्रयीमूर्तये कालस्कालाय नाध धरित्रीमरुद्व्योमतोयेन्दुवग्निप्रभामण्डलात्माष्टधामूर्तिधर्ते धर्त्रे शिवाया शिवघ्नाय वीराय भूयात् सदा न प्रसन्नो जगन्नाथकेज्यः कलानादभालाय आत्मा महात्मा मनो यानो निरूप्यो न वाग्भिः जगज्जाड्यविध्वंसनो भुक्तिमुक्तिप्रदस्तात् प्रसन्नः सदा शुद्धकीर्तिः यद सम्प्रसूतं जगज्जादमीशास्तितं येन रक्षावदाभावितं च लयं यास्यते यत्र वाचां विदुरे स वै न प्रसन्नोऽस्तु कालत्रयात्मा यदार्दितमध्यं तथान्तं न विजानन्दिविज्ञा अभिस्वानुमानाः स वै सर्वमूर्तिसदा नो विभूत्यै प्रसन्नोऽस्तु किं ज्ञापयामोऽत्र कृत्यं यदां स्तुतिमधा कर्ण्य भगनेत्र प्रदत्शिवः विष्णुमाह मुनिनेदानानयस्व मदन्तिकम् अध विष्णुसमागत्य तपो लोकनिवासिनः मुनीन् सान्त्वय्य विश्वेशं दर्शयामास शङ्करम् तानाः शङ्करो वाक्यं किमर्थं यूयमागताः तपो लोकात् भूमिलोकं मुनयो मुग्रविल्भिषाः तच्छ्रुत्वा शूरिनो वाक्यं प्रोचुस्ते मुनिसत्तमः देवद्वादशलोकानां दृश्यं दे भस्मराशयाः स्थितमेकं वनमिदं पश्य तल्लोकसंक्षयं तच्छ्रुत्वा गिरिशप्राहमुनीनूर्ध्वरेदसः भूर्लोकस्य दुःखसंदाहे पादालानां तथैव च सन्देहो नास्ति मुनयस्थितानां नो रहस्तरे ऊर्ध्वपञ्चकलोकानां दाहे सन्देहये वनः कथमङ्गारवृष्टिश्च कथं नो वा महाध्वनिः तदा कर्ण्य विभोर्वाक्यं शङ्करस्य प्रोजो प्राञ्जलयो देवं ब्रह्मादिसुरसङ्गतं भीतिरस्माकमधुना वर्तते वीरभद्रतः स एवङ्कार वृष्टिं च पिपासुर पिबद्विभोः वीरेत्या वीरेत्यब्रवीद्वजः वीरोप्याः कबैर्लिङ्गे पीठ भावादिदं दा कृतं तच्छ्रुत्वा शिवो देवो मुनींस्तान् भयविह्वलान् कपे चित्तं परिज्ञातुं मया कृतमिदं द्विजाः मा भैष्टभवदां सौख्यं सदा सम्पादयाम्यहम् इत्युक्त्वा तु यथा पूर्वं देवदेवकृपानिधिः दानप्यखिल्लोकान् पूर्वतशोभनान् विभुः कल्पयामास विश्वात्मवीरभद्रमधा ब्रवीद साधुवत्स यदो भद्रं भक्त्रानामीहसे सदा तदस्ते विपुला शाश्वती इत्युक्त्वा लिङ्ग्यशिरसि समाघ्राय महेश्वरः ताम्बूलं वीरभद्राय दत्तवान् प्रीतमानसः अथ सौ हनुमानीषपूजनम् कृतवान्यथा समाप्तायां तु पूजायां हनुमान् प्रीतमानसः एकं वनचरं तत्र गन्धर्वं स विपञ्चकं ददर्श तमधाभ्याकवीणामे दीयतामिति गन्धर्वोऽप्याहनमयात्याज्या वीणा प्रिया मम ममा पीष्टेकं गन्धर्व वीणेत्याहकवीश्वरः यदा न दत्ते गन्धर्वो वल्लकीं कपये प्रियां तदा मुष्टिप्रहारेण गन्धर्वपादिदः क्षितौ वीणामादायमसदिं स्वरतन्तुसमन्वितां हनुमान् वानरश्रेष्ठो गायन् प्रागाच्छिवान्दिकं तदो गाने नमः कदा प्रसाद्य जगदीश्वरं बृहदि कुसुमै शुद्धैः देवपादावपूजयत् तदप्रसन्नो विश्वात्मा मुनीनां सन्निधौ तदा दैत्यानां देवतानां च नृपाणाम् शङ्करोऽपि च तस्मै वरमथप्राधकल्पान्तं जीवितं पुनः समुल्लङ्घेन शक्तिं शास्त्रज्ञत्वं बलोन्नतिम् एवं दत्तं वरं प्राप्य महेशेन महात्मना प्रत्यक्ष मम विप्रेन्द्र हनुमान् हर्षमागतः समस्तभूषासु श्वेताङ्गस्वदीप्तिर्मदीकृतदेवदीप्तिः प्रसन्नमूर्तिस्तरुणशिवांसम्भावयामस समस्तदेवान् आज्ञप्तो हनुमांस्तत्र मत्स्येवा यै मुनीश्वर महे शानाकमप्यनं शशि मौलिमवैमि च किं वानरेश्वरः बु धौ न्याये च वै धैर्ये तादृगन्योऽस्ति न नक्वजिद इदिदे ते सर्वमाख्यातं चरितं पापनाशनं पठदां शृणोदां चैव गच्छ विप्र यथा सुखं तच्छ्रुत्वा रामभद्रस्य रघुनाथस्य धीमतः वचनं दक्षिणीकृत्य नत्वा चागां यथा गदः ये दत्तेऽभिहितं विप्रचरितं च हनुमतः सुखदमोक्षदंसारं किमन्यच्छोदुमिच्छसि यदि श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमच्चरित्रं नाम एकोनाशीतितमोऽध्यायः ओम्